मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं फैव् ममासुरराज्यभोगवर्णनम् श्रीगणेशाय नमः कश्यप उवाच समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः दैत्याप्रहरणैर्जघ्नुःशस्त्रास्त्रैर्मभेदिभिः देवाक्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुङ्गवान् अन्योन्यं मिलिताः सर्वे एकीभूता यथा भवन् रजस्तिमिरभावेन स्वपरज्ञानवर्जिताः पुरोगाञ्जग्निरे सर्वे स्वान् परानपि दुर्मदाः दिनैकम् दारुणम् युद्धं बभूवे वीरमोहनं तदशोणितजा खोरा नदी तत्र प्रसुस्रुवे तदो रजो भवच्छान्तम् प्रकाशः संयुधाः पुनः दैत्यादेव विवेकेन युयु दुर्जादसम्भ्रमाः तदो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणं पपाददैत्यसङ्खैस्तद्धदं हर्षसमन्वितैः ततो भैरवमुख्याश्च विश्वक्सेनादयो ययुः आदित्या कालिमुख्याश्च शक्तह्यक्रोधसंयुधाः तैः समन्तान् महास्त्रैस्तद्बलं सम्मदिदं परं दैत्यानां भयसंयुक्तं पपाल दिशोदश तदक्रोधसमयुक्ताः प्रधानां मम कश्यते प्रहरणैर्वीक्ष्य शस्त्रायर्जघ्नुः सुरेन्द्रवान् दैत्यपैर्भैरवाद्याश्च यु युद्धु जातसम्भ्रमाः युग्धं तत्रा भवत्खोरं दिनैकं जयमिच्छतां ततो दैत्येन्द्रमुख्यास्ते पदिदा मूर्च्छया युधाः पपालासुरसैन्यं तद्भयुक्तं दिशो दश ज्ञात्वा ममा सुरस्यैव पुत्रौ द्वौ समुपस्थितौ प्रणम्यपितरं तौ तु योद्धुं जग्मधुरादराद तथकाव्येन दैत्येन्द्रा जीविताः पुनरुद्धिताः युयुधुस्ते महावीर देवैः परमदारुणाः दैत्यायि धर्मश्च संगृद्धो धर्म शस्त्रास्त्रवर्षिणौ बभूवतुश्च देवेन्द्रान् मूर्च्छितांश्चक्रतुर्मृधे न कोऽपि देवसैन्यस्तयोरस्त्रबलं परम् असहस्ततो देवाः प्रपेलुर्भयसंयुधाः ततः शिव स्वयं क्रुद्धो वृषाजूढः समाययौ अनुतं जगदम्बास भानुर्विष्णुर्ययौ पुरः तेषां युद्धं महाघोरं बभुवेरोमहर्षणम् न वक्तुं शक्यते दे देवि ब्रह्माण्डभयकारकम् अधर्मो विष्णुना सार्धं धर्मशङ्करमाययौ कालजिद्भानुना सार्धं महाबलः कपालकालरुद्रेण काल्या धर्मघ्न एव च नियतम् यो योधुः सर्वे शस्त्रास्त्रायैर्मभेदिभिः विनैकं दारुणं युद्धं बभूवे देवरक्षसां ततः काल्या हतः पापी धर्मघ्नश्च मृदोऽभवद कपालकालरुद्रेण त्रिशूलेन प्रमूर्झितः ममार धर्म शिवेना भवद चक्रेन विष्णुना ेतशक्तियादस्त्र मार खड्गतशूलोधिवे नूर्छिद्रेण विषुना तद्वधर्मो मूर्छिधक्रुद चक्रिशूलका शस्त्रस्त्रुर्दैत्यसैन्यक कथं सर्वत्र देवेश्वैर्हाकाररवाकुलम् श्रोणितौकामहानद्यस्तत्र जाता भयानकाः चिन्नभिन्नाश्च दैत्याद्याः पपलुः सर्वतो दिशम् तत्रापि शस्त्रवेगेन मृधा केपिसुलोचने तदो ममासुरक्रुद्धः ग्रामाय ययस्वयं स्वयं पुरस्थितं शिवं वीक्ष्य जगादक्रोधसंयुधः सर्वसंहारकं सोऽपि महाबलपराक्रमः ममासुर उवाच तिष्ठतिष्ट महादेव पश्यमे मे पौरुषं परम् दृष्टं त्वदीयं सामर्थ्यं सर्वदेवादिकं मया एवमुक्त्वा महादेवं धनुःसज्जमधाकरोद निष्कास्य सुदृढं बाणं मुमोच दैत्यनायकः तावत् त्रिशूलकं शम्भुश्चिक्षेपनाशकारकं ममासुरम् समासाद्य निष्फलं तद्बभूवः बाणेन स हतः शम्भुः पपात धरणीतले मूर्च्छया पीडितोऽत्यन्तं सहसा दैत्यपालिनि ततो मम सुरक्रुधो बाणेनैकेन वक्षसि विव्याधमाधवं देवम् मूर्च्छितं तं चकारः शक्तिसूर्यस्ततक्रुद्धौ बाणान् शिक्षिप दुःपरान् ते सर्वे निष्फला बाणाः पे दुःपरमदारुणाः तदो ममासुरसूर्यं शक्तिं विव्याधवक्षसि ये कैकेन स बाणेन पतितौ धरणीतले बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः तया देवेन्द्रमुख्याश्च देवाः सम्मर्दिदा मृधे ततो देवान् मृदान् वीक्ष्य कांसिद्भय समन्वितान् फलदो दैत्यराजस हर्षितो भून्महामदे देवान् शम्भुमुखान् गृह्य ययौ स्वस्थानमुत्तमं काव्यनजीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ततोद्धर्मं महान्दैत्यकैलासाधिपतिं सुतम् अधर्मं विष्णुलोकस्य नाथं चकारहर्षितः प्रेतं शक्तिपुरस्यापि कपालं स सा चकारः सौरलोकाधिपं धर्मग्नं धर्मघ्नम् कालजितं कालजितम् महेन्द्रस्य यमस्य कालकम् परम् लोकस्य चाधिपं चक्रे तथान्येषां च दानवान् ततः कारागारेत्समाक्षिपद देवेन्द्रान् शिवमुख्यान् राज्यं चक्रे महाबलः ब्रह्माण्डाधिपतिर्दुष्टो बभूवस ममासुरः कृतकृत्यमिवात्मानं मेने दैत्येन्द्रसंयुतः स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः अविनाशं स्वमात्मानं मेने देहधरोऽपि सन् ततोऽधिमदसंयुक्तो ममा सुरप्रतापवान् प्रतापवान् देवाङ्गना नराणां तु कन्यानागोद्भवा बलाद स बहुभुजे पापन तदो बहु काले दैते प्रश्यदारुणा खल खंडानक्रे वर्णश्रम सुक आसुरम कर्मस दंडद न स्वाहा न स्वधा कुत्र भवति स्म कदाचन न वषट्कारभावाश्च वर्णसङ्करभावतः ऋषय्यष्टाडिदा केचित् केचित् बन्धनसंयुधाः देवस्थानानि सर्वाणि खण्डितानि च दानवै तीर्थानि पुण्यवृक्षाश्चे बभञ्जुः पापकारकाः मम सुरात्मकं कर्मचक्रिरे सर्वमानवैः प्रतिमा दैत्यनाथस्य स्तापिताः सर्वमन्दिरे इत्यादिकर्मणा शभूव जगदीतले हाहाकारयुधा सर्वे भ्रष्टा जादा सुलोचने वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः राज्यं चकारदैत्येशो ममा सुरः सुहर्षितः वृष्ट्यादिकमभूत्तत्र काले सर्वम् भयाकुलम् एवं पापे प्रवृद्धेदु देवाश्चो पोषणान्विताः कारागारे स्थिता सर्वे बभूवु शोकपीडिताः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिरे ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः Om